तो भूयिम भूयि मततस्ततो भूयि मते भूयि मततस्ततो भूय इमते भूय इमते ते भूयिम भूय इवते तमस्तमस्ते भूय इव भूय इवते तमः भूय इमेति भूयः इव ते तमस्तमस्ते ते तमोये तमस्ते ते तमोये तमोये ये तमस्तमोयपुसम्भो त्याग्रे सम्भोत्यामुयेतमस्तमोयुसम्भोत्या य उसम्भो त्यागे सम्भोत्यामुये यवुसम्भो त्याग्र रता रतास्सम्भोत्यामुयेयवु सम्भोत्याग्र रताः भूयिद्यो सम्भो त्याग रता रताः सम्भोत्यागसम्भो त्यागरताः सम्भोत्यामिति सम् भोत्याम् रता इति रताः रता रता अन्यदेवैवान्यदन्यदेवाहुराहुरेवान्यदन्यदेवाहुः हुराहुरेवै बाहुस्सम् भवात्सम् भवा दाहुरेवै बाहुस्सम् भवाति आहुःसम् भवात्सम् भवा दाहुराहुःसम् भवादन्यदन्यत्सम् भवादन्यते सम्भवादन्यदन्यत्सम् भवात्सम् भवादन्यदाहुराहुरन्यत्सम् भवात्सम् भवादन्यदाहुः स्वम्भवादिति सम् भवा अन्यदाहुराहुरण्यदन्यदाहुरसम् भवादसम् भवादाहुरन्यदन्यदाहुरसम् भवा आहुरसं हुरसं भवादसं भवादाहुराहुरसं भवासम्भवादित्यसम् भवात् इति शुश्रुमशुश्रुमेतीति शुश्रुमधिराणाम् धीराणा धीरा गशुश्रुमेतीति सुश्रुमधिराणाम् शुश्रुमधिराणां धीराना ग शुश्रुम शुश्रुमधिराणा ये ये धीराणा य शुश्रुम शुश्रुमधिराणा ये धीरा तन्ना ये ये नस्तते नस्तत्तन्ना नस्तद्वि चक्षिरे वि चचक्षिरे तन्ना नस्तद्वि चक्षिरे तद्वि चक्षिरे विचचक्षिरे तत्तद्वि चक्षिरे विचचक्षिर इति देवि चक्षिरे सम्भोतिम् च सम्भो दिग् सम्भो किञ्च विनाशम् विनाशम् च सम्भो ऊिग् सम्भो किञ्च विनाशम् सम्भोतिमिति सम् भोतिम् च विनाशम् विनाशम् च विनाशम् च विनाशम् च विनाशम् विनाशम् च विनाशम् विनाशम् विनाशं विनाशम् विनाशम् च यः विनाशमिदे वि नाशम् चयोयश्च चयस्तत्तद्यश्च चयस्तत् यस्तत्तद्यो यस्तद्वेदवेद तद्यो यस्तद्वेदा तद्वेदवेद तत्तद्वेदोऽभयमुभयम् वेद तत्तद्वेदोभयम् वेदोभयमुभयम् वेदवेदोभयाम् सहसहोभयम् वेदवेदोभयाम्सः उभयाम् सहसहोभयमुभयाम्सः सहेति सः सह। विनाशेन मृत्युम् नृत्यम् विनाशेन विनाशेन मृत्युतीर्त्वा तीर्त्वा मृत्युम् विनाशेन विनाशेन मृत्युन्तीर्त्वा विनाशेने देवि नाशेन नृत्यन्तीर्त्वातीर्त्वा मृत्यम् नृत्यन्तीर्त्वासम्भोत्यासम्भोत्यातीर्त्वा मृत्यम् नृत्यन्तीर्त्वासम्भोत्या म्भो चो चातीर्त्वा तीर्त्वातीयामृतमृतज्ञे सम्भो चामृतमश्नुते श्नुतेऽमृतज्ञे शम्भो च्यासम्भो चामृतमश्नुते सम्भूत्येति सम् भूत्या अमृतमश्नुतेश्नुते अमृतममृतमश्नुते अश्नुत इत्यश्नुते हिरण्मयेन पात्रे एण पात्रे एण हिरण्मयेन सत्यस्य सत्यस्य पात्रे एण हिरण्मये एन हिरण्मयेन पात्रेण सत्यस्य सत्यस्य सत्यस्य पात्रे सत्यस्यापि हितमपि हितज्ञे सत्यस्य पात्रेण पात्रेण सत्यस्यापि हितम् सत्यस्यापि सत्यस्य सत्यस्यापि हितम् मुखम् मुखमपि सत्यस्य सत्यस्यापि हितम् मुखम् अपि हितम् मुखम् हितम् मुखमिति मुखम् तत्त्वम् त्वम् तत्तत्त्वम् पोषन् पोषग्गस्त्वम् तत्तत्त्वम् पोषन् त्वम् पोषन् पोषड्गस्त्वं पाप पोषड्गस्त्वं त्वम् पोषण्पा पोषन्न पाप पोषन् पोषण् ृणवापापावृणसत्यधम् माय सत्यधम् माय वृण्वापापावृणसत्यधम् मायावृणो वृणसत्यधम् मायसत्यधम् माय वृणवृणसत्यधम् माय दृष्टये दृष्टये सत्यधम् माय वृणवृणसत्यधम् मायदृष्टये सत्यधम् माय दृष्टये दृष्टये सत्यधम् माय सत्यधम् माय दृष्टये सत्यधम् मायेति सत्या धम् माय दृष्टय इति दृष्टये पूषन्ने कर्षये कर्षे पूषन् पूषन्ने कर्षे यमयमै कर्षे पूषन् ये कर्षेयमयमयि कर्ष ये करिषेयमसूर्यसूर्यय मयि कर्ष ये करिषेयमसूर्या ये कर्ष इत्येकादृषे यमसूर्यसूर्ययमयमसूर्यप्रादावत्य प्रादावत्यसूर्ययमयमसूर्यप्रादापत्या सूर्यप्रादापत्यप्रादापत्यसूर्यसूर्यप्रादापत्यविभिविप्रादापत्यसूर्यसूर्यप्रादापत्यवि प्राजापत्यविभिप्रादापत्यप्रादापत्यव्योहमिप्रादापत्यप्रादापत्यव्योः प्राजा पत्येति प्रादा पत्या yo ha divyo ha rashmeen rashmeeno ha divyo ha rashmeen wo rashmeen dashmeeno ha rashmeen sagne sagne rashmeeno ha rashmeen sam rashmeen sagne sagne rashmeen rashmeen samoha ha sagre rashmeen dashmeen samoha समोहोहसग् समोहते दस्ते जहसग् समोहते नः ऊहते दस्तेज ऊहोहते दो यद्यत्ते जहोहते दोयते ते जो यद्यत्ते दस्ते दोयत्ते एते यत्ते दस्ते दोयत्ते यत्ते एते यद्यत्ते एपग्रे रूपम् ते यद्यत्ते एपम् ते रूपग्र रूपन्ते एते रूपम् कल्याणतमङ्कल्याणतमग्र रूपन्ते एते रूपम् कल्याणतमम् रूपम् कल्याणतमङ्कल्याणतमग्र रूपज्ञ रूपम् कल्याणतमन्थ तत्कल्याणतमग्र रूपज्ञ कल्याणतमम् तत् तत्कल्याणतमम् कल्याणतमम् तत्ते तत् कल्याणतमम् तत्ते कल्याणतममिति पश्यामि पश्यामि ते पश्यामि ते पश्यामि ते ते पश्यामीति पश्यामि योसा असौ य योसा यो बसा असा असौ य योसा बसौ असा वसा असा असा असा बसौ पुरुषः पुरुषोसा असा असा बसौ पुरुषः असौ पुरुषः पुरुषोसा असौ पुरुषः स स पुरुषोसा असौ पुरुषस्यः पुरुषस्य स पुरुषः पुरुषः सोऽहमहद्ग्र पुरुषः पुरुषः सोऽहम् सोऽहमहग् सोऽहमस्म्यस्म्यह सोऽहमस्मि अहमस्म्यस्म्यहमहमस्मि अस्मीत्यस्मि अमृतम् अमृतमनिलम् भाजुर्जुरनिलम् अमृतम् अनिलम् अमृतम् दम अथेदमिदमथाथेदम् भस्मान्तम् भस्मान्तमिदमथाथेदम् भस्मान्तम् इदम् भस्मान्तम् भस्मान्तमिदमिदम् भस्मान्ताम् शरीरग्ने शरीरम् भस्मान्तमिदमिदम् भस्मान्ताम् शरीरम् भस्मान्ताम् शरीरग्ने शरीरम् भस्मान्तम् भस्मान्ताम् शरीरम् भस्मान्तमिति भस्म अन्तम् शरीरमिति शरीरम् ओ क्रतो क्रत ओ स्मरक्रत ओ क्रतो स्मर क्रतो स्मर स्मरक्रतो क्रतो स्मरकृतं स्मना कृतं कृतग्ग स्मर स्मर कृतग्ग स्मर स्मर कृतग्ग स्मर स्मर कृतग्ग स्मरा कृतग्ग स्मर स्मर कृतं कृतग्ग स्मर कृतो कृतो स्मर कृतं कृतग्ग स्मर कृतो स्मर कृतो स्मर स्मर कृतो स्मर स्मर कृतो स्मर स्मर कृतो स्मरा क्रतो स्मर स्मर क्रतो क्रतो स्मर कृतम् कृतज्ञ स्मर इति क्रतो स्मर कृत कृतज्ञ स्मर स्मर कृतज्ञ स्मर स्मरेति स्मरा ग्नेन या सुबधाराये अस्मान् विश्वानि देव भयुनानि विद्वान् जुयो भस्मज्जोः राणमेनो भूयिष्ठान्ते नम उक्तिम् विधेम वोर्नम दःपूर्णमिदम्पूर्मापूर्नमु गच्छते स्य पूर्णमादायपूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः